हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे त्रिनवतितमसर्ग स्वसैन्यस्य भरतस्य चित्रकूट यात्राया वर्णनं तया महत्या यायिन्या ध्वजिन्य वनवासिनः अर्जिता यूथ पामत्ता वृक्षा पृषेत् मुख्याश्च गुरवश्च समन्ततः दृश्यन्ते वनवाटेषु गिरिष्वपि नदीषु च ससम्प्रतस्थे धरमात्मा प्रीतो दश रथात्मजः कृतो महत्या नादिन्य तेन या चतुरङ्गया सागरो निभातेन भरतस्य महीन संयास प्रषे जारंगो घैरवैसे महाबल अनालक्ष चाले बभूवत स ग्वा दूरमध्वा समरी शांतवाहन उवाच वचन श्रीमा वसी मृण वरम यादृशम् लक्ष्यते रूपं यथा चैव मया श्रुतम् व्यक्तम् प्राप्तास्मदयम् तम् देशम् भरद्वाजोऽयमब्रवीत् अयम् गिरी चित्रकूट तथा मन्दाकिने नदी एतत् प्रकाशते दूरान् नीलमेघ निबम्मनम् गिरेता नू निरम्याणि चित्रकूटस्य सम्प्रति वारणैरव मुद्यन्ते भामकैः पर्वतोपमये मुञ्चन्ति कुसुमान्येते नगा पर्वत स नुषु नीलायिवात पापायै तोयम् तोयधराघना किन्नरचरितं देशम् पश्य चत्रुग्न पर्वते हयै समादाकीर्णम् मकरैव सागरम् एते मृगगणा भान्ति शीघ्रवेगा प्रचोदितः वायुप्रविद्धा च दधि मेघजाला इवाम्बरे कुर्वन्ति कुसुमा पीडान् ह्य सुरभिनमि मेघप्रकाशी पलकये दाक्षिणात्या नरा यथा निकोजमिव भूत्वेदम् वनं घोर प्रदर्शनम् अयोध्येव जनाकीर्ण सम्प्रति प्रतिभातिमे, मे कुरैरुदीरीति दूरेणु दिवम् प्रच्छाद्य तिष्ठति संवत्य निलशीघ्रम् कुर्वन्नीव मम प्रियम् स्यञ्जनान् दुरगोपेतान् सुतमुखे अधिष्ठितान् एतान् सम्पतशीघ्रम् पश्य एतान् वित्रासितान् पश्य बर्हिण प्रियदर्शनान् एवम् आपतशैलम् अधिवासं कतिमात्रो मनोज्ञा प्रतिभाति मे तापसानां निवासोऽयं व्यक्तं स्वर्गपथो नघ मृगा मृगीभिः सहिता भवे पृशता मनोज्ञरूपा लक्षन्ते कुसुभैरिवचित्रितः साधु सैन्याः प्रतिष्ठन्ताम् च गाननम् यथातो पुरुषव्याघ्रो दृश्येते रामलक्ष्मणौ भरतस्यैव च श्रुत्वा पुरुषशास्त्रपाणियः विवीचुस्तद्वनम् चूर धूमाग्रं ददृशुस्ततः ते, ते समालोक्य धूमाग्रम् चतुर्भरतमागता न मनुष्ये भवत्यग्नि व्यक्तम् अत्रैव राघवौ अथ नात्र नरव्याघौ राजपुत्रौ परन्तप अन्ये रामोपमा सन्ति व्यक्तम् अत्र तपस्विनः तच्छ्रुत्वा भरतसेषां वचनं साधुसम्मतम् स ज्ञानवाच अमित्रे वरमार्दनः यत्ता भवन्तत् तिष्ठन्तु नैस्तो गन्तव्यमग्रतः अहमेव गमिष्यामि सुमन्त्रो धृतिरेव च एवम् मुक्तः तदश्च सैन्य तत्र तस्तु समन्ततः भरतो यत्र धूमाग्रम् तत्र दृष्टिं भरते न निरीक्षमाणापि च भूमि बहुवरुष्ट्रेण जानति प्रियस्य रामय समाजमं तद इत्या रामायणे वाल्मीकि आदिकाव्य अयोध्याकाण्डे श्रीनवति तम स्वर्ग श्री सीतारामचन्द्रमणमस्तु